श्रीगणेशाय नमः श्रीगौरीशङ्कराभ्याम् नमः अथ श्री शिवमहापुराणे विद्येश्वरसंहितायाम् चतुर्दशोऽध्यायः अग्नियज्ञादिवर्णनम् कृषयुषु अग्नियज्ञम् देवयज्ञम् ब्रह्मयज्ञम् तथैव च गुरुपूजाम् ब्रह्मतृप्तिम् क्रमेण ब्रूहि न प्रभो चो अग्नो दोति यद्रव्यम् अग्नि यज्ञाश्रमस्थानां समिदाधानमेव हि समिदग्नौ प्रसाद्यं च विशेषयजनाधिकं प्रथमाश्रमिणामेवं यावदौपासनं विजा आत्मन्यारोपिताग्नीनाम् ध्वनीनां यतिनाम् ऋजः हितं च मितं स्वकाले भोजनं हुति औपासनाग्निसन्धानम् समारभ्य सुरक्षितम् कुण्डे वाप्यथ भाण्डे वा सज सहस्रं सम्मिलितम् अग्निमात्मन्यरण्यं वा राजदैववशा ध्रुवम् अग्नित्यागभयादुक्तम् समारोपितमुच्यते सम्पत्करी तथा ज्ञेया सायं भग्न्या हुति द्विजा आयुष्करीति विज्ञेय प्रा तत् सूर्याहु तथा अग्नियज्ञो ह्ययं प्रोक्तो दिवा सूर्य निवेशनात् इन्द्रादीन् सकलं देवयज्ञम् हितम् विद्यात् खाली पाकादिकान् क्रतुम् चौलादिकम् तथा ज्ञेयम् लौकिकाग्नो प्रतिष्ठितम् ब्रह्म यज्ञम् द्विज कुर्यात् देवानाम् तृप्तये सकरोत् ब्रह्म यज्ञ इति प्रोक्तो भवेत् नित्यानन्तरमासोऽयम् ततस्तू न अनग्नौ देवयजनम् कृणुते श्रद्धयादरात् आदिसृष्टो महादेव सर्वज्ञ करुणाकरः सर्वलोकोपकारार्थं वारां कल्पितवान् प्रभु संसारवैद्य सर्वज्ञ सर्वभेषज भेषजम् आदौ आरोग्यदं स्ववारं कृतवान् याय वरं च कृतवान् ततः जनने दुर्गति क्रान्ते कुमारस्य ततः परम् अलस्य दुरितक्रान्त्यै वारं कल्पितवान् प्रभु रक्षकस्य तथा विष्णो लोकानाम् हितकाम्यया प्रष्ट्यर्थं ते रक्षार्थं वारं कल्पितवान् आयुष्करम् ततो वारम् आयुषाम् कर्तुरेव हि त्रैलोक्यसृष्टिकर्तुर्हि ब्रह्मण परमेष्टिनः जगदायुषसिद्ध्यर्थम् वारं, पर वारं कल्पितवान् प्रभु आदौ त्रैलोकविध्यर्थम् पुण्यपापे प्रकल्पिते तयो कर्त्रोस्ततो वारम् इन्द्रस्य च यमर्च भोगप्रदम् मृत्युहरं लोका प्रकल्पितम् अदित्यादीन् स्वस्वरूपान् सुख दुःख स सूचकान् वारेषान् कल्पयित्वारो ज्योतिश्चक्रे प्रतिष्ठितान् स्वस्ववारे तु तेषां तु पूजा स्व स्वफलप्रदा आरोग्यम् सम्पदश्चैव व्याधीनां चान्तिरेव पुष्टि आयु युसथा भोगो मुते रा निर्यता क्रमं। क्रम देव व्रम फल प्राहु देव प्रीतिपुर अलदशिव दावा पूजा पंच प्रकल्पिता, पंचध प्रकन्मंत्रोहोम दानं चपस्था खण्डिले प्रतिमायां च यज्ञो ब्राह्मणविग्रहे समाराधनमित्येवं षोडशै उपचारकै उत्तरोत्तरवैशि च पूर्वाभावे तथोत्तरम् नेत्रयो शिरसूयुरोगे तथा कुष्ठस्य शान्तये आदित्यम् पूजयित्वा तु ब्रह्मणान् दिनम् मासम् तथा वर्षम् पश्य त्रयम् अथापि वा प्रारब्धम् प्रबलं चेत् स्यात् नश्चेद्रोगजरादिकम् जपाद्यमेश्च देवस्य वारादीनां फलम् विदुः पापशान्तिर्विशेषेण याधिवारे निवेदयेत् अदित्यस्यैव देवानाम् ब्राह्मणानाम् विशेषदम् सोमवारे च लक्ष्म्यादीन् सम्पदार्थम् यजेद्बुध आज्ञन्नेन तथा विप्रान् सपत्नीकाश्च भोजयेत् काल्यादिन् भौमवारे तु यजेद्रोग प्रशान्तयेत् माष्यमुद्गाढकान्नेन ब्राह्मणाश्चैव भोजयेत् सौम्यवारे तथा विष्णुम् दध्यन्नेन यजेद्बुध पुत्रमित्र कलत्रादि पुष्टिर्भवति सर्वदा आयुष्कामो गुरुर्वारे देवानां पुष्टि सिद्धये उपवीतेन वस्त्रेण क्षीराज्येन यजेद्बुध भोगाठम् भृगवारे तु यजेद्देवान् समाहितः षड्रसोपेतमन्नम् च दद्याद्ब्राह्मण स्त्रीणां च तृप्तये तद्वत् देयं वस्त्रादिकम् शुभम् अपमृत्यु हरे मन्दे रुद्रा दद्दी च यजेद्बुध दानेन तिलान्धेन च भोजयेत् इष्टं यजे च विबुधा नारोग्यादिफलं लभेत् देवानां नित्ययजने विशेषयजनेऽपि स्नानेदानयपे होमे ब्राह्मणानां च तर्पणे तिथि नक्षत्रयोगे च तत्तद्देव प्रपूजने आदिवारादिवारेषु सर्वज्ञो जगदीश्वरः तत्तद्रूपेण सर्वेषाम् आरोग्यादिफलप्रद देशकालानुसारेण तथा पात्रानुसारतः द्रव्यं श्रद्धानुसारेण तथा लोकानुसारतः तारत्रम्यक्रमा देवस्तु आरोग्यादीन् शुभादो अशुभान्ते च जन्मवृक्षेषु गृहे गृहे आरोग्यादि समृद्ध्यर्थम् आदित्यादीन् सर्वाभीष्ट फलप्रदम् समन्त्रकम् ब्रह्मणानाम् अन्येषाम् चैव तान्त्रिकम् यथाशक्ति अनुरूपेण कर्तव्यम् सर्वदा नरे सप्तस्वपि च वारेषु नरै शुभ फले शुभे दरिद्र देवान् यजे दार्ढ्यो धने न हि धर्मम् कुरुते श्रद्धया सह पुनश्च भोगान् विविधान् भुक्त्वा भूमौ प्रजायते छायां जलाशयं ब्रह्म प्रतिष्ठां धर्म सञ्चयम् सर्वं च वित्तवान् कुर्यात् सदा भोग प्रसिद्धये कालाच्च पुण्यपाकेन ज्ञानसिद्धि प्रजायते य इमं शृणुते पठतैव नरो द्विजा श्रवणस्योपकर्ता च देवयज्ञ फलम् लभेत् इति श्रीचोमापुराणे प्रथमायाम् वित्तेश्वरसंहितायाम् अग्नियज्ञादिवर्णनम् नाम चतुर्दशोध्याय श्रीगौरीचङ्करार्पणमस्तु